स्ते रुद्रमन्यव उतोष पे नमः नमस्ते अस्तु धन्मने बाहुभ्यामुदते नमः यात इषः शिवतमा शिवम् बभूवदे धनुः शिवासरौजातवदया जा नो रुद्रमृडया याते रुद्रशिवा तनुरघोरापापकाशिनी दया नस्तनुवासम् तमजागिरिशन्दापि चाकशीः यामिषम् गिरिशन्दहस्तेऽपि भष्यस्तवे शिवाङ्गिरिकृताम् कुरु माहिगुंसे पुरुषम् जगत् शिवेन भचसात् प्रागिरिशाच्छा वदामसि निषालः सर्वमिजगत् जक्ष्मणुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो देव्याभिषके महेयश्च सर्वाः जम्भजन् सर्वाश्रयातु धान्यः असौ यस्तान्व अरुणबुदब्रस्तु मङ्गलः ये चे मागुम् रुद्रा अभिजो दिक्षुश्रिता सहस्रशोभैषागुम्हेडजेमहे असौरोपसर्पदिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्जः उतैनम् विश्वा भूतानि स दृष्ट्वा मृडजातिनः नमास्तु नीलग्रीवाय सहस्राक्षायमेटुषे अथो ये अस्तः त्वानोऽहम् देव्यो करम् नमः प्रमुञ्च धन्वनस्तमुभजोराग्निजोर्ज्या याश्च देहस्तनिषवः परादा भगवो बप भवदत्यधनुस्त्वकम् सहस्राक्षसेषु चे निशिवो नः सुमना भव वीर्यम् धनुःकवर्धिनो विशल्यो बाणवागम् उत अनेशम् अस्येशवः धर्मे ष्टमहस्ते बभोवदे ष्मजा परिभुज नमस्ते अस्मायुभाजानाददाय वैष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्वने परिदे धन्मनो हेतुरस्मान् वृणद् विश्वदः अथो च नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकायत्रिकालाग्निकालाय कालाग्निरुद्राय कालाग्नि नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीवन्महाय नमो हिरण्यवाहवेशेनान्ये दशां च पदजेन मो नमा वृक्षेभ्यो हरिकेशेभ्यः पशूनां नमो नमः सस्मिन्दराजत्युषे मदेशीनां पदरे नमो नमो बभृषाजविंजान्नानां पदजय नमो नमो हरिकेशाजोपवेतिने पुष्टानां पदेनमो नमो भवस्य हेत्ये पददे नमो नमो रुद्राया तदा विदेक्षेत्राणां पददे नमो नमः पददे नमो नमो रोहिताय पददे वृक्षाणां पददे नमो नमो मन्त्रणे पददे नमो नमो भुवं देवायवस्कृता पददे नमो नमः उच्चैर्घोषाया पददे नमो नमः प्रत्स्नवेता यथावदे सत्वनाम वददे नमः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 नमो नम वृष्णे गिरजराजकुरु नमो नम ऋषमद्भ्यो धन् वा विभ्यश्च व नमो नमः आतन् वा नेभ्यः प्रजदथानेभ्यश्च नमो नमः आयच्छद्भव सृजद्भ्यश्च नमो नमास्यद्भ्यो विद्वद्भ्यश्च व नमो नम आसीनेभ्यश्च व नमो नमस्तवद्भो जाग्रद्भ्यश्च नमो नमस्तिष्ठद्भ्यो नमो नमः सभाभ्य सभापदिभ्यश्च वो नमो नमो अश्वेभ्यो नमः विविद्धं देभ्यश्च वा न मानमगणाभ्यस्त्रबह्मदेभ्यश्च वनमानम कृच्छेभ्य गृच्छपदेभ्यश्च वनमानमोऽ व्रातेभ्यो व्रातपदेभ्यश्च वन मानव गणेभ्य गणपदेभ्यश्च वन मानव विलोभेभ्य विश्वरूपेभ्यश्च वा न मानव महद्भ्यः क्षुल्लकेभ्यश्च वन मानवारचेभ्यः रचयभ्यश्च वन मानमा रथे ो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो न सकारेभ्यश्च वो नमो नमः कुलारेभ्यः मारेभ्यश्च वो नमो नमः पुन्दिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषकृद्भ्यो धन्मकृद्भ्यश्च नमो नमा मृगजुभ्यस्वदिभ्यश्च वो नमो नमःभ्यश्च पदिभ्यश्च वो नमः नमो भवाय च रुग्राय च नमः शर्वाय च पशपदय च न भवनेरग्रीवाय दश दण्ठाय च नमः कपर्दने च व्यक्तकेशाय च नमसहस्राक्षाय च शतधन्मने चमोऽघेशाय चषाय च नमो मे षष्टमा ज चमदय च नमो ह्रस्वाय जना च नमो बृहदे च वर्षे च नमावृद्धाय च संवृद्धने च नमो अग्र्याय जमाग च नम आशवेचराय च नमस्य ेभ्यागत नव कोऽ्यागचावस्वन्यागत नमः नममोहा ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजा गजापरजाय धनमो मध्यमा गजा न्दते धनमो बर्मिणे च वरोचने धनमो बिल्मिने च कवचने जनमश्रुताय च श्रुतसेनाय च नमो नं दुभ्याय चनन्याय च नमो तृष्णवे च प्रमृषाय च नमो दूताय चिताय च नमानििणे चे षमते जनमस्तेष्णेष्ठवे च युधिने जनमस्वायुधाय च नस्वत्यायत्याय च नमः्याय च नमस्वोद्याय च रस्याय ध नमो नाद्याय च वै चन्ताय जनमः कोत्याय न्याय चाभ्याय च नमो मेघ्यादच विद्युत्याय च नव एभ्ययाय चा तप्याय च नभो वाख्याय च लेश्म नमो वास्तव्याय च वा स्तुपायच मस्तोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमशङ्काय च पशुपत जय च नम उग्राय चमाय च नमो अग्रे वधाय चदूरे वधाय च नमो अङ्ग्रे जने गषे च नमो वृक्षेभ्यो हरिवेशेभ्यो नमस्ताराय नमः शंभवे जमजो भवे जनमशङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय चमस्त्येच्छ्याय च नमः जाय च नमः प्रतरणाय चोत्तरणाय च नम आधार्याय चालाद्याय च नमषष्ठ्याय चैन्याय च नमहिरण्याय चक्रवध्याय जनमह्शिराय च पुरस्तरे जनभोगोष्ठ्याय जगिष्याय जनमस्तव्याय जघेह्याय जनमकाड्याय ्याय च न वापकुरमाणाय चाभिक्षते च न प्रक्षिदते जनवायागुम्हृदयेभ्यो नमाभिक्षेटकेभ्यो नमा विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नीवत्येभ्यः कन्धदस्पदे दरिद्रम् येषाम् पुरुषाणामेषाम् पशूनाम् राजे रुद्रशिवातनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तदा नो वृणजीवसे मागो रुद्राय तपसे कवर्धने क्षजन्वी राजप्रभरामहे मतिम् न्युपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृढानरुद्रतमामयस्कृति क्षयव्ये राजनमसा विधेमते याच्छान्तजा समनुरागजे पिता तदस्या मदवरुद्र प्रणेतौ मान मानावधेतम् मोदमादरम् वृजामानस्तनुवो रुद्ररीरुषः मानस्तोके मान आयुषिमानो गोषुमानो अश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आराध्ये गोग्नपदपूरुषेक्षयद्वीरायशस्मे ृगन्न भीमौ वहत्नमुद्रम् दृढाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवन्तुसेनाः परिद्वेषस्य धर्मस्तनश्वमेद्भ्यस्तो कायतनजा मेघट्टमशिवदमशिवो नः सुमना भव परमे वृक्ष वसानः निधा जकृत्यम् वसानहा च रविनाकम्ब्यभ्रदागहि मिकिरिदविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगम्हेतयोन्यमस्मन्निवपन्धुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो ता भगवः पराचीना मुखागृधि सहस्राणि सहस्रशोदे रुद्रा अधिभूम्या तेषाकम् सहस्रजो जने वधन्वाणि अस्मिन् महत्तम् नवे परिक्षे भवासि नीलग्रे वा श्रुतिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रेवाश्रुतिगण्ठादिवकम् रुद्रा उपसृताः ये वृक्षेषु तस्मिन् दरा नीलग्रे वा विलोहिताः ये भूतानामधिपदजो शिखासः कपद्दिनः ये अन्येषु विविध्यम् दिपात्रेषु पिपतो जनान् ये पथाम्बथलक्षज ऐलभृताय विजुषः ये तेच्छानि प्रचलन्ति शृगावन्दो निषङ्गिणः यावस्थ भूजागम् षष्ठदिशोरुद्रावितस्थिरे तेषागम् सहस्रजो नमारुद्रे प्रसविजा दीक्षेस्तेदश प्राचेर्दश दक्षिणा दश प्रदेशेर्दशो देचेर्द्यास्तेऽभ्यस्तेनामृदयम् तुदैकम् दृष्माजष्टमाद्वैष्टम् भोजम्भे दधामि ओम्बक्यजामहे सुगन्ध्यम् पष्टिवर्धनम् उर्वारुकमिबन्धनान् मृत्यो रुमक्षेयमामृता यो रुद्रो अग्नो यो आप्सु यवोषधेषद्रो विश्वा भुवना विवेश तस्मे रुद्राजनवो अस्तु तमुष्टुहिस्विषुश्रुधम् वा यो विश्वस्य सजति भेषज यक्ष्वा महेशो मनसाय रुद्रन्नवर्देवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरः अयम् मे हे विश्वभेशतो यगम् शिवाभिमर्शनः सहस्रमयुतम् वाशा मृत्यो मर्त्याय हन्तवे तानि यज्ञस्य मायजा सर्वा नव गजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा भगवते रुद्राय विष्णवे मृत्युर्मे भाई शान्तगाः ये नान्येनाहाप्याघस्वा न ना भारद्राय विष्णवे मृत्युर्मे पाये